सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च सर्वायुधमहामात्रं परसैन्यप्रघर्षणम् एकं शतसहस्रेण राष्ट्रवर्धनं चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणं देवदानवगन्धर्वैः पूजितं शाश्वतिसमाः प्रादाच्चैव धनुरत्नमक्षैर्ये रथञ्च दिव्याश्वयुजम् अपि प्रवरकेतनम् उपेतम् राजतैरश्वैर्गान्धर्वैर्हेम मालिभिः पाण्डुराभ्र प्रतीकाशैर्मनो वायुसमैर्जवे सर्वोपकरणैर्युक्तमजय्यम् देव दानवैः भानुमन्तम् महाघोषम् सर्वरत्नमनोरमम् ससर्जयन् सुतपसा भौ मनो भुवन प्रभुः